अथर्वेदे चतुर्थाष्टके षष्ठोऽध्यायः ॐ पिबासो ममभियमुग्रसर्द ऊर्वङ्गव्यम् महि कृणालीन्द्रा वियो कृष्णोऽवधिशो वज्रहस्तविश्वावृत्रममित्रियाशवोऽभिः सीं वाहिषेतरुत्रोज शिप्रमा नृषभो यो मतीनाम् योगोऽत्रभिद्वज्रभिर्द्योहरिष्ठा स इन्द्रचित्राभिरन्धिवाजान एवाहि प्रत्नथा मन्दतुत्वा श्रुतिर्ब्रह्मपाभृतस्वतगीर्भिः आविः सूर्यम् गृणहिभिषो जहिशत्रोङ्ग्रभिगा इन्द्रन्धि ते त्वामदा बृहदिन्द्रस्वदाम इमे पीता महामनो महामनोऽनन्तव संविकोतिम् मत्सरासो जल ऋषन्तः प्रसाहम् येऽपि सूर्यमुषसम् मन्दसारो वासयोपदृढानितर्द्रत् महामद्रिम् परिगामिन्द्रसन्तम् नुत्था अच्युतम् सरसस्परि स्यात् तवक्रत्वा तपरद्धंसनाभिरामासु पक्वंशचा और्णोर्दुर उश्रियाजोऽपि दृह्णो दूर्वाद्य असृजोऽस्वान् अप्राथरक्षाम् महिरम् सोऽभ्यो उर्वेणुपद्या वृक्षो बृहदिन्द्रस्तपायः अथ आ रजो रोदसी देवपुत्रे प्रत्ने मातरा जह्वे तस्य अथ त्वा विश्वे पुर इन्द्रदेवा एकम् तपसन्दे भराय अदे एवो यदभ्यौहिष्टदेवान् स्वर्षाता वृणत इन्द्रमत्रा अथद्यौश्चित्ते अपसानुवज्रा अद्वितानमद्भ्यसा स्वस्य मन्योः अहीयदिन्द्रो अभ्योः सानन्निचिद्विश्वायुष्यथे जघाना अधः पष्टा महा उग्रवज्रम् सहस्रभृष्टिम् वरुतच्छताश्रिम् निकाममरमणसंयेनषिन् वर्धान्यम् विश्वे मरुतः सजोषाः पचच्छतम् महिषाभ्यम् ऊषा विष्णुस्त्रीणिसराम्सितामन्वृत्रहणम् मधिरमंशुमस्मै क्षोदो महि वृतम् नदीनाम् परिष्ठितमसृज ऊर्मिमपा तासामनुप्रवत इन्द्रपन्थाम् प्रार्थयोनीतिरपसः समुद्रम् एवाता विश्वा च कृवाम् समिन्द्रम् महामुग्रमधुर्यम् स होदा सुवीरम् पास्वायुधम् सुवज्रमा स नो वाजा अजश्रवस इषे च राजेथे हि द्युमत इन्द्रविप्राय भरद्वाजे ध्रुवत इन्द्रसूर्येन्द्रिविशस्मै वार्ये न इन्द्र अजावाजम् देवहितम् सने मरुदे महीमा सुवीराः तमुष्टु हि यो अभिभूत्यो जामन्वन्नवातः पुरुहूत इन्द्राः अषामुग्रम् सहमानमाभिर्येर्भिर्वद्धवृषभर्षमीनाम् स युद्धः सत्त्वाः खजकृत्समर्दाः रक्षो न तनुमाङ्गजीषे बृहद्रेणुश्चनो मानुषीनामेकः कृष्टीनामभवत्सहा वा तम् अनुत्यतमायो दस्योङ्ग्रेकः कृष्टीरमनोरार्याय स्त्यस्मिन्नु वीर्या अन्तत्त इन्द्रनस्मिदस्ति तत्र तु विवोचः स दिद्धिते तु विजातस्य मन्ये सहस्रहिष्ठतु रतस्थुरस्य उग्रमुग्रस्य तपसस्तबीजो रध्रस्य रध्रतुरो बभूव तन्नः प्रत्नम् सख्यमस्तु युष्मे इच्छावदद्भिर्बलमङ्गिरोभिः अन्नच्युतच्युद्दस्मे शयन्तमृणोः पुरो विदुरो अस्य विश्वाः सहिथेभिर्हव्यो अस्त्युग्रहीशानकर्म हतिवत्रतूर्ये सरोकसातातनये समज्लीवितन्तसाय यो अभवत् समत्सो स मद्मनाजनिममानुषा नाममत्येन ृतमः समोकाः स यो न मुहेन मिथो जनोपोत्सुमन्तु नामाचुमुन्धुनिन्द जनो शम्भरम् सुष्णमिन्द्रः पुराञ्च्यौत्नाय श यथा यनोचित उदापदात्वक्षसापन्यसा च वृत्रहत्या धिष्वज्रह्मस्ता दक्षिणत्राभिप्रमन्दपुरुदत्र माजाः अग्निर्न शुष्कम्बनमिन्द्रहेति रक्षो निरक्ष निर्न याहि सो नो सहसो यस्य नो चिरते मईषे पुरुहूतजोतोः प्रदुविद्युम्नस्य स्थभिरस्य हिष्वेर्दिपोरक्षे महिमा पृथिव्याः नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः प्रदत्ते अद्याकरणम् कृतम् भूत्कृत्संयदायुमतिथिमस्मै पुरो सहस्रा निशिषा अभिक्षामुक्तोर्वजाथा अननुत्वा हिग्ने अथ देव देवामदम् देवा देवा विश्वे कवितमङ्कवीनाम् करो यत्र परिवो बाधिता यदिवेजना आयतन् वे गृणानः अनुद्या वा पृथिवी तत्तजो मर्त्यादिहत इन्द्रदेवाः कृष्पा कृत्नो यत्ते अस्त्युक्तम् न यज्ञैः महाकिन्द्रो नृपदाचि प्रा उतद्विपर्हा अभिनः सहोभिः अस्मद्र्यग्वावृथे वीर्याजोरुः पृथुः सुकृतः कर्तृभिर्भूत् इन्द्रमेव आसातये धार्हन्तभृष्पमजरञ्जुवानम् अषाह्शभसाशुशुवांसम् सद्यश्चिद्यो असामे पृथो परस्ना बहुलागमस्ते अस्मद्र्या अक्सं मेहि श्रवांसि यूथेव पशः पशुपादमो ना अस्माभ्या वरुत्स्वाजौ तम्ब इन्द्रम् च नमस्य शाकैर्यह नूनम् वा आजयन्तो हुवेम यथा आचित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ्रतोथनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः सञ्जग्मिरेपथ्या आरायोजो अस्मिन् समुद्रेण सिन्धवो जादमानाः शबिष्ठन्न आभरशोरसमोधिष्ठनोजो अभिभूत उग्रम् विश्वाद्युम्ना वृष्ण्यामानुषाणामस्मभ्यन्दाहरिवो मादयध्यैः यस्ते मदः पृतनाषाणमृध्र इन्द्र तन्न आभरशोशुभांसम् येन तोकस्य तन यस्य सातोमम् सेमहि जिगीवांसस्तोताः आ नोऽभरभृषणम् सुष्ममिन्द्रध न स्मृतम् शोशुवांसम् सुदक्षम् येन वंसा आमपृतना सुशत्रोऽन्तभोतिभिरुतजामीङ्ग्रजामीर आ तेषु स्मा वृषभरे पश्चादोत्तरादधरादा पुरस्तात् आविश्वतो अभिसमेत्त्रद्विम्नम् स्वर्वद्धे ह्यस्मे द्रवर्त इन्द्रवृतमाभिरुतेवम् जीमहि पावम् श्रोमतेभिः ईक्षे हि वस्व उभयस्य राजन्धारत्नम् महि स्थूलम् रहन्तम् मरुत्वम् तम् वृषभम् वा वृधानमकवालिम् दिव्यम् शासमिन्द्रम् विश्वासाहमवसे नूतना योऽग्रम् स होदामि हतम् हुवेम जलम् वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्ध्रजायेष्वस्मि अधात्वा पृथिव्याम् शूदसातो भवामहेतनयेगोष्वप्सु वयम् त एभिः पुरुहोत सख्यैः शत्रोः शत्रो वृत्तर इत्यामघ्नो वृत्राण्युभया निशोरराजामदेव भृता त्वताः यौर्नयिन्भिभौ मार्यस्तस्थौ रजिः शमसा मृत्सुजनान् तन्नः सहस्रपरमुपरासाम् गद्धिसो नो सहसो वृत्रतुरम् दिवो न तुभ्यमन्विन्द्रसत्रा सुर्यम् देवेभिर्धा य विश्वम् अहीयद्भृत्रमपोपौरिलाम् संहन्द्रजे श्रीविष्णुना सचानः तोर्वन्नो जीयान्तव सस्तवेयान् कृतब्रह्मेन्द्रो वृद्धमहाः राजाभवन्मसुनः सोम्यस्य विश्वाः सां यत्पुरान् शतैरपद्रम्पणय इन्द्रात्रदशोऽनये कपयेऽर्कसातौ वथैः सुष्णस्यादुषस्य मायाः पित्वो नारिरे चेत्किञ्चनप्र महो द्रुहो अपविश्वायुधादिवज्रस्य यत्पतनेपाधिसुष्णाः पुरुषसरथसंसारथये करीन्द्र कुत्साय सूर्यस्य सातौ पश्ये नो नंशुमस्मै शिरो दासस्य प्रबन्दमीम् साप्यम् ससन्द्रम् प्रणग्राया समिषासं स्वस्ति विप्रोरहिमायस्य दृह्लाः पुरो वज्रिञ्चपसानदर्दः सुदामङ्गद्रेक्ष्णो अप्रमृश्य मृजिष्वनेदात्रम् दाशुषेदाः सवेतसुन्दशमाजन्दशोऽन्तु तु जिमिन्द्रस्वभीष्टिसुः आरुग्रम् शश्वतनाय मातुर्मैः स ईं सृजो वनते अप्रतीतो विभ्रद्वज्रम् वृत्राणङ्गभस्तौ तिष्ठद्धि अध्यस्तेवकर्तेव चो युजावहत इन्द्र मृश्रम् स नेमतेव सानुं य इन्द्र प्रपूरवस्तवन्त सप्त यत्पुरः शर्म शारदीर्दर्धम् दासेः पुरकुत्साय शिक्षन् त्वम् वृथ इन्द्रपूर्यो भूर्वरिवस्यन्शने काव्याय परानववास्त्वमनुदेयम् तव हस्त्यन्द विश्वमाजौ सस्तोऽधु नेचुमुरीया हसिष्व देदयदि तुभ्यं सोमेभिः सुन्वन्दभेतिरिद्मभृतिः पक्षा अर्कैः इमा उत्वा पुरतमस्य कारो रहव्यम् वीरहव्या हवन्ते धियो रचेष्टामजरन्न वेयोरयुर्विभूतिरीयतेव तस्या तमस्तु स इन्द्र्यो विदा नो गिर्वा आह सङ्गीर्भिरयज्ञवृद्धम् यस्य दिवमधिमह्ना पृथिम् याः पुरुमा यस्य लिलिते महित्वम् स इत्तमो मयुनन्ततन्वत्सूर्येणवच्चकार कदा ते मर्ता अमृतस्य धा मे यक्षन्तो न यस्ता चकारसकुहस्मिरिन्द्रः क्रमाजनम् ललतिकासु भिक्षु कस्ते यज्ञो मनशेषम्बराः जपो अर्क इन्द्रकतमः स होताः यदा हि देवे विशतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः ये मध्यमास उत नूतनास उता ममस्य पुरुहूतबोधि तम् पृच्छन्तो वरासः पराणि प्रत्नात इन्द्रश्रुत्यानुयेमुः अर्चामसि वीरब्रह्ममाहोया देवविद्मता त्वा महान्तम् त्वापादो रक्षसोपितस्थेमहि जज्ञानमभितत्सुतिष्ठा तमप्रत्नेन युज्येन सख्यावज्रेण तृष्णोपतानुतस्व स दुश्रुजेन्द्र नूतनस्य ब्रह्मण्यतो वीरकारुधायः त्वम् ह्या आपिः प्रतिपित्रोणाम् शश्वद्बभूथसुहभयेष्टौ रोदये वरुणम् मित्रमिन्द्रम् मरुतः कृष्पावसेनो अद्य प्रभूषणम् विष्णुमग्निं बुरन्धिं सवितारमोषधेः पर्वतांश्च इम उत्वा पुरुषाकप्रयज्यो चरितारो अभ्यर्चं तर्कैः श्रुते हवमाहुवतोः वा नो नत्वा अन्यो अमृतत्वदस्ते नोम आवाचमुपयाहि विद्वान् विश्वेभिसो नो सहसो ये अग्निवारदसाप आसुर्ये मनं चक्रुरुपरन्दसाय सनो एता सुगेषु दुर्गेषु पथिकृद्विदानः ये अश्रमास उरपो बहिष्ठास्तेभिर्न इन्द्राभिवक्षिवाजम् य एक इद्धं यश्च ऋषणीनामिङ्ग्रन्तङ्गीर्भिरर्भिर्चलाभिः यः पत्यते वृषभो विष्ण्यावान् सत्यः सत्त्वा मुनः पूर्वेतरो न भगवाः सप्त विप्रासो अभिवादयन्तः नक्षब्दावन्तष्ठामद्रोधवाचम् मदिभिश्चम् तमे मह इन्द्रमस्य राजः पुरुवीरस्य नृपतः पुरुक्षोः यो अस्कृशो युरजरः स्वर्वान्तमाभर हरिवो मादयध्यैः तन्नो विभो चो यदि ते कस्ते भागः किंवयोदुद्ध्रषिद्धः पुरुहूतपुर्वसोऽसुरघ्नः तम् रच्छन् जेवज्रहस्तम् रचेष्ठामिन्द्रम् वेबी वक्वरीयस्य नो गीः तु ग्राहन्तुमि कूर्मिम् रभोदाङ्गातुमिशेनक्षते तुम् रवच्छ अयाहत्यम् माजया वा प्रधानम् मनोजुवा श्रतवः पर्वतेन अच्युताचिद्वीरिता स्वोजोरुजोऽपि दुल्हा दृषतापि लक्षिन् तम्बोधियानम् यस्या चमिष्ठम् रत्नम् रत्नवत्परितम् सयध्यैः स नो हेन्द्रो विश्वान्यति दुर्गहाराणि आजना आयद्रुह्वे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा नपा वृषन् विश्वतः शोदिषातान् ब्रह्मर्विशेषोचयक्षामपश्च भुभोजनस्य दिव्यस्य राजा पार्थिवस्य जगतः स्वेशसंरधिष्वज्रम् दक्षिण इन्द्रहस्ते विश्वा अदुर्यदसेभिमाजाः आसंयतमिन्द्रणस्वस्तिम् शत्रुतूर्याय बृहते म वृद्ध्राम् यया तासा न्यार्याणि वृत्राकरो वज्रिम् श्रुतुकानाहुषाणि स नो निरुद्भिः पुरुहूतवेदो विश्ववाराभिरागहि प्रयुज्यो न या अदे एवो बलते न देव आभिर्याहितो यमामध्यद्रिक् सुत इत्त्वन्निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमानमुक्थे यद्वायुक्ताभ्याम् मखवन्हरिभ्याम् बिभ्रद्वज्रम् बाह्वोरिन्द्रयासि यद्वा आदिविपार्ये सुक्ष्मिन्दवत्र हत्येव शिशूरसातौ यद्वा दक्षस्य विद्युषो अभिभ्यतरम् अजः शर्धत पाता सुतमिन्द्रो अस्तु सोमम् रुग्रो जितारमूर्ति कर्ता आवीराजसुष्वजौ लोकम् दातापसुस्तु भ्ररवज्रम् कर्ता वीरम् नलियम् सर्ववीरम् श्रोताहवम् गृणतस्तोमवाहास्मै यद्बाबा नद्विष्म इन्द्र आयसो नः प्रतिपो अपस्कः सुते सोमेस्तुमसिशंसदुःखेन्द्राज ब्रह्मवर्धनम् यथा सत् ब्रह्माणि हि च कृषे वर्धनानि तावत्त इन्द्रमतिभिर्विविष्मः सुते सोमे सुतपाश्यन्तमालिरान्द्रिया क्रिया स्मलक्षणानि यज्ञैः स्तनो बोधिपुरोळा संव्रानस्पि पातु सोमङ्गोरुजीकमिन्द्र एदम्बरेर्यजमानस्य सीतोरुम् गृहीत्वा यत उ लोकम् समन्दस्वाह्यनुदोषमुग्रप्रत्ताः जिज्ञास इमे अश्नुवन्तु प्रेमे हवासः पुरुहूतमस्मे आत्ते यन्दीरमस इन्द्रजम्याः तलम्बः सखाजः संयथाः सुतेषु सोमेऽपिणता भोजमिन्द्रम् कुपित्तस्मा असति नोभराजलसु स्ताविशो मे भरद्वाजेषु क्षयतिन्मको नाः असत्यथा जलित्र उत सूरिन्द्रो राजो विश्ववारस्य दाता विषामलीन्द्रे दा श्लोक उक्ता सचासो मेषु सुतपात्रियो मखवारुभ्यमुक्थैर्दुक्षो राजा गिरामक्षितोः चतुरिर्वीरो नर्यो विचेताश्रोताहमं नृणत उर्योतिः वसुष्यंसो नलाङ्कारुधाया भाति स्तुतो विदथेदातिवाजम् अक्षो न चक्र्यो शूरबृहन्वृते मह्नारिचे रोदस्योः वृक्षस्य नु उतयो पुरुहूतभयाव्यूतयोरुरुहुरिन्द्रपूर्वीः तस्ते पुरुषा कषा कागवामिवस्रुतयः सञ्चरणीः वत्सानान्नतन्तयस्त्रदामन्वन्तो अदामानः सुरामन् अन्यदद्यकर्वरमन्यदुष्वो तच्च सन्मुहुराचक्रिरिन्द्राः मित्रो नो अत्र वरुणश्च पूषार्यो वचस्य पर्येतास्ते विद्पदा पोनपर्वतस्य पृष्ठादुःखेऽभिरिन्द्रानयन्तयज्ञैः तन्त्वाभिः सुष्ठुति वाजयन्त आदिन्द्रगिर्वाहो अश्वाह न यञ्जरन्ति शरतो न मासा नद्याव इन्द्रमवकर्शयन्ति वृद्धस्य जिद्वर्धतामस्य तनोऽस्तो मे एभिरुक्थैश्च शस्यमान न पीडते न स्थिराय न शर्धते दस्य जूतायस्तवान् वज्रा इन्द्रस्य गिरयश्चिदृष्वागम्भीरेभवति गम्भीरेण न उरुडा आमत्रिन् स्था ऊर्ध्व ऊति अरिषण्यन् रक्तोुष्टौ परितज्ञाया सहस्वरायमवसे अभिकहितो वातमिन्द्र पाहि विषः अमाचैरमरण्ये पाहि ऋषो मदेशतमा सुवीराः यात ऊतिरपमायापरमाया मध्यमेन्द्र सुष्मिन्नस्ति ताभि रोषवृत्रहत्ये वीर्न एभिश्चपादैर्महान्न उग्राभिः स्पृधो मिथतीररिषण्यन्न मित्रस्य संव्यथया मञ्जुमिन्द्र आभिर्विश्वा अभियुजो विशोचिरार्यायविशोवतारीर्दासेः इन्द्रदामय उत ये दामयोर्वाचीनासो मनुषो युजुज्रे मेषाम् मिथुराशवांसिजहि कृष्ण्यानि कृणुहि परा च शूरो पाशूरम् वरते शरीरैस्तनोरु चातरुषयत्कृण्वैते लोके पाकोऽसुतनये यदप्सु विक्रन्दसे उर्वरा सुब्रवैते न हि त्वाशूरो न तुरो न धृष्टुर्णत्ता मन्यमानो युजोधा इन्द्रनकिष्पा प्रत्यस्त्येषाम् विश्वा अजातान्यभ्यसितानि सपत्यत उभयोर्नृन्नमयोर्यदिदेहवन्ते वृत्रे वा आबहो द्रुवतिक्षते एवाव्यचस्पन्ता यदि अधस्माते च ऋषणयो यते अस्माक आसो ये नृतमासो अर्य इन्द्रसूरयो दधिरे पुरो नाः अनुतेराय सत्रा दे विश्वमनुवृत्रहत्ये अनुक्षत्रमनुसहो यत्रेन्द्रदेवेऽभिरनुते धृषह्ये एवानस्पृहः समजा समत्स्विन्द्ररारन्धिमिधतीर विद्या मवस्तो सा गृणन्तो भरद्वाजा उदत इन्द्र नूनम् श्रुधेन इन्द्रह्वयामसित्वा महोबाजस्य सातौ वा वृषाणाः संयद्विषोऽयन्द्रशूरसाता उग्रन्नो मः पार्ये अहम् दाः त्वाम् वाजीहवते वाजिनेजो महोबाजस्य गद्यस्य सातौ ृत्रेऽस्मिन् सत्पतिन्द्रन्दाष्टे मुष्टिहा गो सुध्यन् त्वं कविञ्चो रजोऽर्कसातोन् दाशुषे वर्क त्वं शिरो अमर्मणः पराहन्नति ग्रमिष्यन् त्वम्प्रभरो मा भो युध्यन्तम्भन्द सज्जुम् त्वम् तु ग्रम् वेतसवेतप्रयच्छता सहस्राः अवगिरेर्दासं त्वम् श्रद्धान्द्रानः सोमयेदभीतयेचुपुरिन्द्रिशो त्वम्बेलेदष्टिम् सहस्रा शच्यासचाहन् अहम् चल तत्सोरिभिरानः शान्तवद्याय इन्द्र सुम्नमोजाः त्वया यत्सवन्दे सीरवीरास्त्रिवरोधे नुषाचविष्ठा भयन्ते किमस्य मदे किं वस्य किमस्य सख्ये चकार रणाः अस्य पुरा विद्रे किमु सदस्य मदे सद्वस्य भीताविन्द्रः सदस्य सख्ये चकार रणाः अस्य पुरा विद्रे सदु नहिनुते ए महि मनः समस्य न राधसो राधसो नूतनस्येन्द्रनकीर्दृश इन्द्रियन्ते एतत्यत्त इन्द्रियमचेति येनापथेपरशिखस्य शेषाः वज्रस्य यत्ते निहतस्य शुष्मात् स्वनाच्चिदिन्द्रपरमो ददारन्द्रो परशिखस्य शेषो अभ्यावर्तिने चायमानाय शिक्षन् वृचेव तो यद्धरियोपीयाह्न्पूर्वे अर्धेभ्यसापरोदत् त्रिंशच्छतम् वर्मिण इन्द्रसाकम् यव्यावत्याम् पुरोहोतश्रवस्य वृचिवन्तः शरवे पत्यमानाः पात्रा आभिन्तानान्यर्थान्यायन् यस्य गाव आपरुषासोऽयवस्यो अन्तरोषुजलतोणा स सृञ्जयाय रूपशम्परा आदाद्वृचीवतो दैव पाताय शिक्षन् वजाग्ने रथिनो विंशतिङ्गावधो मथो मघवामह्यम् सम्राट् अभ्यावर्त्लेचाय मानो ददाति दूणाशेयम् दक्षिणापार्थवानाम् आगावो अग्मन्वृतभद्रमक्रन्त्य्छेदन्तु गोष्ठेरणयन्तस्मै प्रजावतेः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः इन्द्रो यज्वने प्रणते च शिक्षत्युपे ददाति न स्वम् मुषायति भूयो भूयो रजमिदस्य वर्धयन्नभिन्ने खिल्ये निददाति देवयुम्करो ना मामित्रोऽव्यतिरादधर्षति देवांश्चयाभिर्यजते ददाति तज्जो गित्ताभिः स च देवोपतिः नता अर्वा आ रेणुककाटो का अश्नुतेन संस्कृतत्रमुपयन्ति ता अभि उरुगायमभयन्तस्य ता अनुगावो मर्तस्य विचरन्ति यज्वनः गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः हिमाया गावः स इन्द्र इच्छा मे मनसा चिदिन्द्रम् योऽयङ्गा वो मे यथा कृषञ्चिदश्रीरञ्चित्कृणुथा सुप्रतेकम् भद्रम् गृहम् गृणुथ भद्रवाचो बृहद् गोभज उच्यते सभासु प्रजावते सोऽयवसंलिशन्ते शुद्धा अपः सुप्रपाणे पिबन्तेः मामस्तेन एष समाघशम् सुपरिबोहेते रुद्रस्य विद्याः उपेदमुपपर्चनमासु गोषोपपृच्छताम् उपरिषभस्य रेतस्युपेन्द्र इति चतुर्थाष्टके